प्रमख्यसर्वान् दैतेयान पादहस्ततलैस्तुतान् रूपं कृत्वा महाभीमं जहाराशुसमेदिनीं सम्प्राप्य पादमाकाशम् आदित्यसदने अत्यरोचतभूतात्मा भास्करं स्वेन तेजसा प्रकाशयन् दिशः सर्वाः प्रदिशश्च महाबलः शुशुभे समहाबाहुः सर्वलोकान् प्रकाशयन् तस्य विक्रमतो भूमिन। चन्द्रादित्यौ स्तनान्तरे नभः प्रक्रममाणस्य नाभ्याम् किल तदास्थितौ परमाक्रममानस्य जानुभ्यां तौ व्यवस्थितौ विष्णोरमितवीर्यस्य वदन्त्येवम् द्विजातयः अथासाद्यकपालं स अण्डस्य तु युधिष्ठिर तच्छिद्रात् स्यन्दिनीतस्य पादाद्भ्रष्टा तु निम्नगा ससारसागरं साशु पावनी सागरङ्गमा जहारमेदिनीं सर्वां हत्वा दानवपुङ्गवान् आसुरीं श्रियमाहृत्य त्रीं लोकान् स पाताले तान् पाताले न मुचि शंबरश्च प्रलादमना पादूता पाताूताूताेण पाता वैहरी काल गात्रूतादर्शयत तस्य गात्रे जगत् सर्वमानीतमिव दृश्यते न लोकेषु यदव्याप्तम् महात्मना